ीणासुप्तम् श्रीगुरुभ्यो नमः हरिः ॐ गृणाहि घृतवती सविताराधिपत्यैः पयसती रन्तिराशनोऽस्तु ध्रुवा दिशां विष्णुपत्न्यघोरास्येशाना शाना ससोया आम् वायु वाना वाता अभिनो गृह्णन्तु विष्टम्भो दिवोद्धरणः पृथिव्या अस्येषाना जगतो विष्णुपत्नी शान्तिः शान्तिः शान्तिः हरिः ओ